अथाष्टाविंशः सर्गः स एवम् ब्रुवतीम् सीताम् धर्मज्ञाम् धर्मवत्सलः न नेतुम् कुरुते बुद्धिम् वने दुःखानि चिन्तयन् साम् तयित्वा ततस्ताम् तु बाष्पदूषितलोचना निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाचः सीते महाकुलीनासि सी धर्मे च निरता सदा इहाचरस्वधर्मम् त्वम् यथा मे मनसः सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया वने दोषा हि बहवो वसतस्तान्यबोधमे सीते विमुच्यतामेषा वनवासकृता मतिः बहुदोषम् हि काम् तारम् वनमित्यभिधीयते हितबुद्ध्या खलु सदा सुखम् न जानामि दुःखमेव सदा वनम् गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिना सिंहानाम् निनदा दुःखाः श्रोतुम् क्रीडमानाश्च विश्रब्धा शून्ये तथा मृगाः दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् सग्राहाः सरितश्चैव दुस्तराः मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम् सुप्यते पर्णशय्यासु स्वयम् भग्ना सु भूतले रात्रिशुश्रमखिन्नेन तस्माद्दुःखमतो वनम् कर्तव्यो नियतात्मना फलैर्वृक्षापपतितैः सीते दुःखमतो वनम् उपवासश्च कर्तव्यो यथा प्राणेन मैथिली जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् देवतानाम् पितॄणाम् च कर्तव्यम् विधिपूर्वकम् प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् कार्यस्त्रिरभिषेकश्च काले, काले नित्यशः चरताम् नियमेनैव तस्माद्दुःखतरम् वनम् उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः आर्षेण विधिना सीते दुःखमतो वनम् यथा लब्धेन कर्तव्यः सन्तोषस्तेन मैथिली यथाहारैर्व सीते दुःखमतो वनम् अतीव वातस्तिमिरम् बुभुक्षा चातिनित्यशः भयानि च चा महान्त्यत्र ततो दुःखतरम् वनम् सरीधृपाश्च बहवो बहुरूपाश्च भामिनी चरन्ति पथिते दर्पा ततो दुःखतरम् वनम् नदी निलयनाः सर्पा नदीकुटिलगामिनः तिष्ठन्त्यावृत्यपन्थानमतो दुःखतरम् वनम् पतङ्गा वृश्चिकाः कीटादंशाश्च मशकैः सह बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनी वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् कायक्लेशाश्च बहवो भयानि विविधानि च अरण्यवासे वसतो दुःखमेव सदा क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः च भेतव्ये दुःखम् नित्यमतो वनम् तदलम् ते वनम् गत्वा क्षेमम् न हि तु नेतुम् न कृतामतिर्यदा बभूव तदा वनं। वनं महात्मना न सीता वचनम् चकारतम् ततो ब्रवीद्राममिदम् सुदुःखिता रायणे वालीक आदि काव्य अयोध्या अष्ट सर्ग